छापरापतः नमस्य यथा कस्य क्रत्वा मरुदर्कस्य मर्पसाकम् याथकूतयः स्थिरासन्वायोधापरानुलो बुलप्रदिष्टभे युष्टागामस्तु सवेपणीयसीमामर्गस्य मालिनाः स्थिरम् हस मनो वर्तया गुरु या सलवनिलः पृथिव्याम् या सा पर्वतानाम् वः सत्रर्मिविदे अधित्यपि न भूम्याम् निजाकुदपि शीतना युजारुद्रा सोनोति साधुडे रमे वयन् द्विपर्वतान् विञ्जन्ति वनस्मतीन् रुदो धर्मदा यिभदेवादः सर्वे भक्ताम् द्रष्टर्वः तिरोहितः आ वो जावाय पृथिवीति दश्रोदवे भयम् तमानुषाः आ वो भक्षूदनाय कम् रुध्रावो न्ता नूनम् नो वा सा यथा पुरेऽकन्वाय विभ्युषे युष्मेभिः असामिरप्रायज्ञम् तद प्राजेतसः असामि भर्मरुदानाभूतिभिन्द्यन्न विद्युदाः असाम्यो नो विवृता सुदानवोसा विधूतयस्तवाः विषिद्विषे मरुदः परिमन्यबलिषण्डसे च तद्विषम् उत्तिष्ठ ब्रह्मणः पते जे भयन्तस्तेमहे उपप्रयन्तु मरुदस्तुदानमहेन्द्रभासोऽर्भभासचा स्वामिध्यदास्मत्रमत्यापब्रूते धने हि ते सुवीर्यम् वरुधा स्वस्य वासके तैक ब्रह्म बृहस्पतिः प्रथेव्येतु सोदृता अच्छा वीरम् नर्यम् पङ्क्तिरा सम् देवायज्ञम् नयन्तु नो भाषते ददादिशो नरम् वसुत तस्मालिलाम् सुरामाय जामहे सुप्रदोत्यमनेहसम् प्रणोनम् ब्रह्म नस्त्वर्मन्त्रम् वदत्युच्छम् यस्मिन्निन्द्राव न मित्रो अर्यमा देवावोकाम् सुजगृहे तमिल् भो देवा विदधेषु शम्भुवम् इमाम् च वाचम् प्रजिहर्य धानरो विश्वे त्वामावो अस्मवत् को देवयम् दश्रभजरङ्गो ऋक्तपरिषिषम् प्रधास्वानस्यारचिताम् दर्वाक्षयम् दधेत् हन्दिराजभिर्भये सुक्षयम् दधेत् स्य भक्तादलरुमाधरे राघ्ये अस्ति भज्रिणाः यम् रक्षन्निप्रदे तसोवरो नो मित्रो हर्यवः नो देस्सदभ्यते जनाः यम् बाहुदे भविप्रवान्निवर्त्यम् ऋषः अरिष्टः सर्व ये धरेनन्ति यम् द्विऋतादिरः सुखः पन्थानृक्षरादित्या च ऋतम् यदे नात्रापघादो अस्ति सम्बध्यो वसुविश्वम् लोकमुदत्पना रक्षा गच्छत्यस्त्रेतः तथा राधा मेत्सरोवरुणस्य आवाघ्नम् तम्प्रति भोजे लेभयन्तम् सुम्मेवासे चतुरश्चित्तमानाद्विधियानि धातोः न तु स्पृहयेत् सम्पोषन्नध्वानस्ति रम्भाविभुजो नपात् सादेव वृणः स्फुरः <Sess> -ja, ो नः पूषन्नघो वृतो दुश्चैव आदिदे सति अपस्मृतम् पसो जाहि अपत्यम् पारिपन्थिरम् जीवानम् हुरस्थितम् राजा पन्तस्य द्वयापि नोघसम् तस्य कस्यचित् प्रदाशितिष्ठतपूषिम् आदत्ते दस्रवम् महः वृणीमहे ौ भग हैरण्वत्तम धनादि सुषणाद्रिः अतील स्वस्ततो नयसुगानः सुपथादृणो पूरन्निः कृतुम् विदः अभिसूजपसङ्गजननवध्वारो अध्वाने पूषन् निहक्रतुम् विदः सग्िमोद्धिप्रयम् सिदधि प्रातरम् भूषणम् निहकृतम् विदह न भूषणम् मेथामसि सूक्तैरभिरेणीमसि वसो निरस्त्वमीमहे द्रुद्राय प्रचेदसे मे नृष्टा मायतम् व्यासे भोजे हृदे यथा नादिष्टरत्पश्वभ्यो जगवे यथा तोकाय जा रुद्रियम् यथा नो मित्रोऽवरु नो यथा रुद्रस्तिके सति यथा विश्वे सजोषसः राधवाजिम् मेघवादिम् ऋत्रम् जलाशभेषजम् अच्छास्तु श्रेष्ठो देवानाम् वसोः सन्नः करचर्वजे सुेभो नृभ्यो रवे हस्ते योगवे सदस्य गृहास्तु विरम्णम् मानस्वामपरिवाधो माराजयो जुपुरन्त जे भज यास्ते प्रजा अमृतस्य परस्मिन् धावन्मृतस्य आभूणङ्गी सोमवेदः अर्धे विवस्पदश्चित्रम् राधो अमर्त्य आलाशुडे याजवेदो महात्तमत्या देवाम्बुधाः स्मेधे हि श्रवो बृहज अद्य लोकम् रे महे हो पत्न्यम् मोरप्रियम् सोमले कुम्भारे जीवम् जो मध्वर श्रियम् तिथिम् स्वाहुतम् ज्येष्ठम् जनाय दातु मे देवाच्छा जातवे जातवेष्टिषु समिष्ट्या विष्टहं विश्वस्यामृत भोजन अग्ने साताराममृतम् ये धयज्येष्ठम् भव्यवाहन सुसं ने ज्यमतो य स्वाहुरात् तस्कण्मस्य प्रतिरन्नायुज्जीवसेन मस्यादिव्यञ्जनम् होतारम् विश्ववेदसं ग्रह्मेवामि स सा इन्धुते साह पुनः सम्प्रजेदसोऽ देवा निर द्रवदे सविताराषसमस्तिनाभगा मध्यम् व्योक्षपाः नामक्ने कर्वादस्ता धृतसो मासयुद्धेहम् स्वध्वरध्वरा नामग्ने दोतो विषामसिद्धृताः पूर्वानोढसोऽपि भावसो गीतेष विश्वदर्शिकामेष्वपिता पुरोहितोऽसि यष्केषु मानोढ्वा ज्ञानमग्ने होदान मृत्युजम् मनुष्यद्देवीमहि प्रदेतमत्यम् तद्देवानाम् मित्रमः पुरोहितोसी दूत्यम् सिन्धो योप्रस्वानिदासभूर्पयोग्ने भ्राजम् अर्चनाः श्रु श्रुकन्दमेवैरग्ने सजावाभिः आसीदन्तपरिहित्रोऽण्वन्तः सोमम् मरुदस्तु वाक्यजक्पालावृथाः विभासुतोमम् मरो नोऽस्तुभ्यामुद्रासयोः स्वमम् देवसोम् गृहरुद्राम् आदित्याम् उदा याश्वध्वनम् जनम् मनोजातम् घृढम् पृढम् सृष्टिवानोहिशुरे देवाग्नेऽपि चेततः ताहिरस्त्रिर्वणस्त्रयस्त्रम् सतमामाह निजमेधवदत्रिवज्जाता वेदो विरोपवत् अङ्किरस्तन्म ह्यप्तस्मन्मस्य वलीके नवभूते प्रजपे कालम् तवध्वराम् शुक्रेण सोतिषा धृताः वनसन्त्येव विषस्रो धीर्याः भिष्टन्वश्च सो नो हन्ते वा सेत्त्वाम् चक्रवस्तभवन् ते भिक्षुदम् े आहोदारभृत्तिनम् तद्धमित्तामम् श्रुतनन्दम् सप्रशस्तमम् विप्राग्नेविष्टिषो आत्मा विप्राः वस्तुदसो माभिप्रजाः बृहद्भाविभ्राजो हविरग्ने मर्ता यासुषे प्रातन्या नस्त्रतो ममेयायसन्त्याद्य व्यञ्जनम् वरीदासा दयामसोर्पाञ्जे व्यञ्जनमेवसो दिभिः अयम् सो वस्तुता नमस्तम्पादधिरोण्यम् एषो वृषा वोढ्याप्योच्छलि प्रियादिवः सुदेवामस्ति नृभजे जस्रा सिन्धो मातराम नोदरा रयीना धिया देवा वा सुपिता अत्यन् देवान्त दुहासो जोग्नायामधिष्टमि यद्वामिष्पदात् जो भविषा जानो अपाम् पिपत्यपोरिन्दरा पिता गुणस्य चर्षणि आधारो वाम् मदीनाम् न सत्याचसा पातम् स्वामस्य सृष्ट्या च नारदस्विनाज्योतिष्पदेतमस्ति जा, नः तावस्मेरा साधाविषम् मानो नामादीनाम् जातम् पारायणन्तव्ये सञ्जातामस्विम् हरिक्रम् वाम् इभस्पृतीर्थे सिन्धो नाम रताः ध्यायोजिन्दावः निमस्कम् वायिन्दोम सु सिन्धो नाम् परे सम्भ्यम् गुहः अभूदभावो अन्तरवेरण् सूर्याः यासीनः अभूजपालमेके मन्था ऋतस्य साधुया अनृज्जिवः तत्तरितस्मि पारमोजरिता प्रतिभूषति मदे सोमस्य विप्रातोः आमसाना विवस्वादि सोमस्य भीत्या गिरा परश्वच्छम्भो आगतम् यो दृढानुः श्रियम् वरि त्वनो नृपाचारते दृतामानतो अग्तुभिः उभापि मदमस्वि नो हरिः ओ अयम् वामृभूमत्तमः सोमारुता वृथा तमस्विना विमलम् निरोह्यम् धत्तम् रत्नानिशुषे धुरेण त्रिवृता सुबेदसारथे राया तमस्विना ण्वा सोमाम् ब्रह्म कण्वाञ्जध्वरे तेषाम् चतुर्नसम्भवम् अश्विनामधो मत्तमम् भातम् सोमामृता वृथा अथा यतश्रावसु विभ्रतारथे दास्वा सोमा गच्छतम् हस्ते परिहृ विश्ववेदसा मध्वा यज्ञम् मे मित्रतम् अन्वा सोमाम् सोमामि ण्डा मभिष्टिभिप्रापतम् जुपमस्विना ता विष्टा साभस्पतिपातम् सोमामृता वृथा सुदासे विभ्रा रथे वृक्षावहतमस्विना अयम् स मुद्रा दुतवादिवस्पर्यस्मे दत्तम् पुरस्पृहम् यद् अतो रथेन सुमृता नागातम् साकम् सूर्यस्य रस्मिभिः अर्वाम् सप्तयोध्वरस्नयो वहन्तुम् गृञ्जन्ता सुकृते सुदाना भापरिहश्चेदकम्भरा सत्यागातम् रथेन सूर्यध्वजा येन सस्ताो भवतु बीजे भीरन्वागवासे भी पुरोवसो अर्कैश्च निः पायामहे स स्वकर्वा नाम् सदाशिप्रियै तम् सोमम् प्रभो रश्विना सह वामेण रपुभाब्जोच्चादि दिवः सह जुम्नेन बृहदाविभावरि राजादे विलासारी अश्वापते पजेर्विश्वविधौरिच्यवन्तमस्त मे उदीरय प्रदीपासोदा पुनश्चोदराधो मघो ना उवाचो न उच्चाचरलीरथाना ये अस्य आचरणेण त्रेण पुत्रेण सवाः प्रजामेष युञ्जते मनोधानाय सूदयाः अत्राहरकण्डा येषाम् कन्वा, ये कन्वा तमो नाम ज्ञातिभ्रा आधाया प्रभुञ्चति जनम् ते दानम् भद्वती यतमुत्पादयति पक्षिणाः एताुक्तमसदूर्योधियात्यभिमानोढा विश्वामस्तासे ज्योतिष्कृति सूरी अपद्मेषा मघोरी दुहिताः उषाभायिभानुना चन्द्रेण दुहि कर्तिवः आवहन् देवो यस्मभ्यम् सौभ्याम् युच्छन्ते दुरुष्णो विश्वस्ते प्राणाेभ्युच्यते नं सूरी ृहतामि भावरि श्रुति चित्र मधेहमम् पुरो मा गम्भीमाम् वा स्वयश्चित्र मानुषे जने तेन सुकृतो अध्वरामुपये वह्नायः विश्वान् देवामपि दजेन्दरीक्षादिभस्ताम् सा स्मासुधागो मदस्ता यस्या ऋषन् दातयः प्रति भद्रा सा नुषा सदा ये चिद्धित्तापूर्वा भूतये तुतो माधोषेण सोभिषा कुषाय दद्यभानुना विद्वारा वृणवो दिवः यच्छदाि प्रदे वि गोपा दीर्घा सन्न राजा बृहदा विश्वमे सदामिलाभिला विश्वदुरो सोमहि सम्मारे वति पुषा भद्रे भिराग यदि कश्चिद्रो दधिकुपद्मा स्वामिना गृहम् संस्कृतम् प्रथम्यस्थाः उषस्ताम् एनाः दुष्प्रम्प्राभायश्चित्तेव दक्षिणा दिवश्च दुष्पदर्जुनि वृषप्रारम् युवान्ते यच्छन्ते रश्चनम् पामो सर्वसोऽयवो कर्माभूषत उदत्यम् जातमेतसम् देवम् वहन्ति केतवाः दृशे विश्वाय सूर्यम् अपत्येतायवायथा नक्षत्रायम् धर्तिभिः सूराय विश्वचक्षसे अधरश्रमस्य एतवो विहस्वयोजान ष्कृतासि सूर्य विश्वमाभासिनम् प्रत्यम् देवानाम् विङ्गुदेशमानुषान् प्रत्यङ्गेष्वाम् सदृशे हेनावापकरक्षसा भरण्यम् तञ्जानङ्गारुणपस्यासि विद्यामे विरजस्त्रित्वानो हतृभिः पश्यञ्जन्मा हरिसूर्या सप्तत्वा हरिदोरथेवहन्तिदेवसूर्या सोऽष्टे संयक्षण अभियुक्तसप्तसुन्दस्तु लोरथस्य नत्याः ताभिर्यादिश्वयुक्ति मेद्भयम् तम सत्वरिज्योतिष्वस्य समुत्तरम् एवन्दे हत्रासो जनवन् मज्ज्योतिरुत्तमम् रुतलरान्दिवम् रुद्र हरिमाणम् जनादया सु हरिमानं। रोपणाकासु दध्वसि अभो हरिद्रवेणु मे हरिमाणम् निध्वसि उदरादित्यो विश्वे क्तिरविन्द्रम् ददा वस्तो वितरन्ता अपीमानन्दन् स्विभूतयोक्षक्रामेतम् सर्ववो मदक्षुतम् सम् जाने सुमृतारोहत् ङ्गम् गोत्रमङ्गीरोभ्यो वृणोरपोदात्राय झलदूरेणुवादिवित् स्वसेन यद्यमलाया वहोम स्वायामध्यम् वाधानस्य हृदयन् त्वभवाभिधाना वृणोरमाधारयः पर्व देदानो मत्मसु हृद्रम् गिरिम् रतमसावधीर इमादित् सूर्यम् नित्यारोहयोधे त्वम् मायाभिरप मायिनो धमस्तु साभिर्जे अभिरुप्ता वजुःपदा त्वम् विप्राभ्रमण प्रारुज पुरप्रजिष्वानन्दस्य वत्येष्वाभिधा त्वम् गृत्सम् दृष्टहत्येष्वाभिधानम् तयोजि निर्वायसंभारम् महान्दम् दिदर्भुदण्ड्यक्रामे पदा सनादेवदस्य वत्या िते मात्रो हरमृष्ट्या यानीश्च प्रदाने सातीयमानस्य चो चिता निश्चेता य रन्ध्रयन्नवम् प्रजा नाभूविरिन्द्रस्तधयन्नवा भुवः वृद्धस्य जित्वम्रो विजयसन्धिकाः तक्षद्यत्तशनादः साधवो विरोदासीमद्मना बाधते समाः आत्मा बाधस्य नमो नाम राज च आपूर्यमानमहान्नभिस्रवाः न्धिष्ठय दुशने काम्ये स काम् इन्द्रो मङ्गोमङ्गी तिष्ठति उग्रा यमस्तो दादृशकृष्णश्च द्रम्भिला ऐरयत् पुराः आस्मार्थम् पृढमानेषु तिष्ठिता जातस्य प्रभृता येषु मन्दसे इन्द्रयथा सुत गोमेषु जागमो अदार्भाम् महदेवाजस्तवे कक्षी वा देवृजयामिन्द्रजुम्भरे नेनाभवाषणस्तस्य दु प्रतो विश्वेता देशवानेनुप्रवाच्या इन्द्राहस्तायिषुज्यो निवेगे वक्त्रेणस्तो मोदौ जो नयोगाः अश्वयर्गम्यो राजयर्वाजो य र्णभाय स्वराजे सत्यदुष्माय तपसेवाचि अस्मिन् वृदने सर्ववीरास्मत्सोरिस्तव सर्वम् स्याम शम् सुमेषम् माया स पर्वादोलधरुणेष्वच्चोदस्सहस्रावो निस्तवेजेषु वाृधे इन्द्रो यद्वृत्रमवाधीर्नेषा स हि महाद्वरिषो व्रू वृद्धोपनीषिभिः इन्द्रम् धमत्वे स्वया ममेतराजम् दरिवन्धः यम् वृणन्ते दिविलग्ना वरेण समद्रन्न शुभ्रायः समृत्र हे अनोदस्त्वरोदयस्य श्वा इन्द्रमतासवः अविष्टवृष्टिम्बदे अस्य युद्धादो ृणाचारिवेदमोपो वृत्ते रजासो बुद्ध्रमासायते वृत्कयत्रा मणे धृग्रभिस्तनो निजन्धान्वो हृन्दयम् हृदन् नयित्वा निर्णञोन्मयो ब्रह्माणेन्द्रतमया निवर्धना त्वे युज्यम् क्ष वज्रमभिम् जो अवग्रन्वदभियधारोहन्दिव यन्मानोषप्रधरान्द्र मोदयस्तन्विधा ी तस्या मा भान्तरे सनादयोजसा वद्रा इन्द्रदे तर्तस्य यत्पत्प्रधानस्य रोगसेवते सुगस्य तपसाधिरच्चिराः विरिन्द्रीतस भुजरः निविस्तान्द कृष्ण अत्राह देवः अन्विष्टो सङ्गहाद्यामनुभवत् त्वमस्य मारे रज सोम्योमनस्तु भो जे धृषन्मनः सकृ भूम्यम् प्रतिमानमोज सोमस्त्वम् त्वम् भोमम् प्रतिमानम् पृथिव्या ऋष्णवीरस्य नृजः पृथिर्भोः समाप्ता अन्तरिक्षम् मिलित्वा सत्यमद्धा ृथिवी अयं चोदसिन्ध बोध सोमन्द मानसोदस्त्व वृष्टिम्बदे अस्य युद्ध्यायेको अन्यम् चे विश्व मारुके आर्जन्मत्र मरुतस्तस्मिन्नादौ विस्ते देवासो अमरम् न लुत्वा गन्ध नो इन्द्राय सेमिपस्वादः नो सिद्धिरत्रम् सता दृष्टिरत्रावि नो देशो तस्य चेत् धुरो अस्वस्त धुरयन्द्रगोरासि धुरो वसू न दिनस्पदीः शिक्षा <laughs> नः प्रति मोहकामकर्शनस्य खादग्यस्तमिदम् ग्रीणीमसि सती मयेन्द्रमरजवान्त माधवे दिनमभिनश्चेति अतस्तङ्गृभ्याभिमात्मा यदोज कामा मूनैः हे भद्युभिस्मना येभिरिन्दोभिञ्जरम् धावालिन्दोभिरस्तिरा इन्द्रे रजस्तम् नयम् न लिन्दोभिर्जुगद्वे रहस्त भृटार भेमहि समेन्द्रराजा सिटार भेमहि संवादे पुरश्चन्द्रेरभिद्योभिः सन्धेक्या प्रभत्या वीरया स्वामत्यार भेमहि ते स्नामदामदन्दानि नृष्ट्या ते सो मासो वृत्रहत्येतु सत्पदे कर्कार वेद च वृत्तान्यप्रतिपरिषे निसहस्राणि वर्ययाः विशालिसम्भेदे निषष्टया पुरापुरम् समिदम् हंस्योजसा सञ्जाम् न सख्या परामदे भो नमो शिम् नामाजिनम् सङ्करञ्जमुखवर्णयम् अधेस्ते वर्तनी ओम् सदा वगृहे तस्याभिहत्पुरो नाम परे श्रोताज्ञाद्वद्दसा बन्धुना शुश्रवासोपुषाः षट्यम् सहस्राः नवति नमस्तुष्पदावृणे ममा वित्रव शृणो विस्तभद्रामभिरिन्द्रोर्गानम् आयुम् महेराज्ञे यूने अरन्धनायः देवगोपासखायस्ते शिवमासा प्रथमम् ददाह मा अस्मिन् घमन् मृत्सुम् अन्तसे अक्रम् वयो नृत्यो मेदा शङ्क्राय साकिने सुरीवदे शङ्कम् समिन्द्रम् भगयन् विष्टुहि ो दासी उपे मृषा मृषत्तामृषो व्यञ्जते अक्षत्रम् यस्य त्रिषदो धृषम्बाः नो गर्षणा गृह पुनो हरिद्याम् ऋषभो रथो विढः त्वम् दिवो रेहदस्ता नो गोपयो पत्मना त्रिषदा सम्भारम्भिनरे यन्मायिना वृन्दिना वन्दिना दुरक्षिताम् न वस्ति वसनिम् नृधञ्जसि यत् दृक्षिस्वशरस्य च्रन्दिनोरो भद्मना प्राचीने नमना सा बन्हनावधाय द्या चित् कृणभटस्तापरि त्वमापितर्यम् दुर्वसञ्ज्ञसन्तम् दुर्वीजम् भय्यम् सरकृ म् पुनो न वा सादा सत्पदिस्तुभत्रयस्तान्वति मुक्ता भाजो अभिघ्नाधिराज सा दानोरस्माम् परामिन् वदे असा माम् क्षत्रमसा माम् ने प्रतो मम अपादा सन्तुले मे येन इन्द्रजदुषो वर्ध्वयन् क्षत्रम् स्तवीरम् मृष्टम् चुग्धे देदेव गुरात्रि दुग्धाश्च औषधस्तु मदा इन्द्रमाणाः दर्पया कामेषामधामनो वसुदेयाय कृष्वामादिष्टः परम् अभीमिन्ना नत्यो यास्ता नक्ता प्रागणेषु जिद्धते सदेवुम्नस्मे महे क्षत्रम् ज्ञाषाढिम् नतव्यम् रक्षा जनामघो नः पायसूरे राजेज नस्त्वस्तीश्च वरिमाविव प्रथयन्धा पृथिवी जनः प्रती ेवर्षण्या तमस्य जी देवज्रम् ते जेन वंसानः सोऽ न मो नत्यस् मुद्रदीधादिविश्रीधाभरी मे इन्द्रस्तोमस्य पीतये सनात्स युद्धभोजसापनस्य ते त्वम् त्रमिन्नमर्वा तन्न भोज देवश्च सन्मानाभिरज्यसि देवताति चेति देवीस्तस्मा पुत्रः कर्माणे पुरोगीतः सै त्वमेन सर्वजस्य ते च ऋजनेन प्रब्रुवाण इन्द्रियम् ऋषा सन्दर्भवतिरर्जनो ऋषा क्षेमेन धेनाम् मघवाजिलिङ्गी सैन्महानि धा जनस्तृमदयिन्द्रायभज्रम् निघनिघ्नेव विनाशयन् ज्योते श्रज्यमेव शुक्कलश्च तवा अपस्वेजते नानायमनस्तामवामस्तु शेर्वाहरीवन्दनस्तु ना चमेण्टा दस्ताय अप्रक्षितम् वसो विवर्णहस्तायोहस्तृतो आवेदासोदास्तनो लो भोगाय येन प्रपूर्णेण वदस्यामृणोत्यमुदायां स भूर्पणेः ृत्या हरियोगृग्सम् परिलतस्य मुद्रन्न सञ्चरणेन दक्षस्य विदतश्च नोदो गिरिण्य मेनातिरोहते जसा सर्पनिर्महारेणुपुंसे दृष्टन्न भ्राजते सुजासवाह ेन सृष्टम् माजिनामाय सोमुदे शुभ्राभूयो राम यन्निनामानि देवी यदि दीषित्वा वेधोदयन्द्रम् ऋणत्यृणसम्रदूर्या समासामाधा चेतमयत्तिरेणम् मृगदर्हरिष्मणि श्रियत्तिरोधरुणमच्चोदम् मृजोष्टमो जिमादासुवर्गणा स्वर्मेणे जन्मदायन्द्रहत्या धर्मो जयसायन्ेषु मागीनः त्वं सुदस्य मदे अर्य अपो विनर्तस्य समयापाश्चाय बृहदे विरत्ताय सत्यदृष्णाय तमसे मजिम्भारे अपामे अम्रवणेयस्य दुर्धनम् नाथो विश्वायुतमासे अपारम् तदा देविस्तमनोधासधिकजापो निम्ने वसमानाः विष्पातः तत्पर्वा तेन समसीतः यत इन्द्रस्य भज्रस्तीतारन्यजाः अस्मैभिजनमसा समध्वरौषो न शुभ्राभरापनीयसे यस्य धामस्त्रवासेना मेन्द्रियम् ज्योतिरकारि भयि गौनायाचेदा इन्द्रते वयम्बोष्टमारभ्यतरामसि प्रभो मतो नो गिरस्त रक्षोणीरेव प्रदीनो हर्य तद्वजा भूयेन इन्द्रवीर्या स्वन् प्रेरणा ृषति वीर्यम् अवर्यम् जाते पृथिवीने भोजासे पञ्चमीन्द्र पर्वतम् महामरुम् वज्रे न वज्रम् पर्वतश्च कर्तित अपादृजो तव अपसत्राविष्टम् दृशे देवहंसाः नोजिः स होजा अमृतो निजम् देहोदायद्धूतोदः निशादित्ये व्युः पतिभीरजो महादेवतास्वात्मा यमानो अजरृष्टन् दशेषो तिष्ठति अत्यो न पृष्ठम् रोषस्य रोचते युवमदानस्तनयन्न चित्रदत् प्राणाकृष्णे भिमसो विभत्यः अथो रक्षुञ्जसाुषव्यार्या देवरन्दति विवादो दशेषु जिष्ट्रोभिस्पृण्यानेः ऋषिरज्ञा विशाले कृष्णङ्गरे अवर्जम् भो मना वाताोदितो ज्योतेन सापाहिमम् जागः न्नक्षीरम्बाय सारजस्तादश्चरथम् भजदेव नत्रिणाः ददृष्टामृगा भोपालोषेश्वरयिङ्गतारम् सुखभञ्जनेभ्यः भोतारेवम्बरेण मित्रङ्गसेवम् दिव्यानिजन्माने भोतारम् सप्त भो लिष्टयम् बाघतो वृणते अध्वरेषु अग्निम् विस्तेणामरतिम् रसूणाम् वर्यामि प्रयासायामि रत्नम् अच्छिद्रादो नो नवदो नो अध्यस्तोभ्यो मित्रमहः शर्मा यच्छ अग्नेर्नन्दमुदमृष्टोर्जो न वामरोदङ्गणदेवी भावो भवामघवन्मनवभ्यः शर्मा ृष्ट्याग्ने अम्ना सो ग्रन्दम् प्रातर्भक्षो धियासुज्जगम् यात् अयाधिरग्ने अग्नेयस्ते अन्येऽस्ते विश्वे अम्ना बालयन्ते वयि स्माननभीरशिक्षिणीनाम् स्तूले भजनाम् कुमवित्यायन्त वोर्धा जिवनाभीरन्यप्रेथव्या असा भवदरतिरोदस्य देवासो जनयन्त देवं मयि स्वनरज्जोधिर्लायासोर्य रज्जयोध्र्वासो मयि स्वसूनि रामर्माधेष्वधे सप्तमानो सून वेणो दीति न मनुष्यो त्यलक्ष्माय भोरेः प्रदे मानोषीनाम् युधा देवे मस्तको त्वम् नमस्त्यम् गौरवो वृत्रहं सज्जन्ते भक्तिर्जय धन्वा काष्ठापदम् आरम्भे महीसाम् विस्तृष्टिर्भरत्वा जय श्रीयगतो विभावा स्वातवने जय सदने शक्तिः पूर्णे जे जानते सोमृदावा अन्यम् निशसम् निजसस्य जेतुम् सुभाव्यम् दोतम् सद्योम् प्रशस्तम् राजिम् भरद्भृगा मे मादरि तस्य दासोरुपया दस्य जन्मे हरिष्मन्दुशिलोजे समर्ताः सादिभो तादृशो विस्मृतिर्विक्षुमेधाः कम् न व्यासी हृदामानमस्मत्सो मृत्युजो मृज मेमानोष सप्तयःस्पन्द आज भोजीजानन्त विषिपा भगवसर्मानो रेषु वरेणो होदायिभिक्षु नमो राजन्तर्भोवज्जपतीरजीनाभम् मदीमग्नेरजीनामृशंसा मो मतिभिर्भो जमासः आसन्नमाजम्भरम् अर्जयन्तः प्रातर्मक्षोधियादुर्जगम् याते ओ